हरि ओम् श्रीगणेशाय नमः अथ श्रीशिवपुराणमात्मे पञ्चमोऽध्यायः बिन्दुगसद्गतिः शौनक उवाच सुतसुतमहाभागधन्यत्वम् शिवसकरि श्रावितेयम् कथास्माकम् अद्भुता भक्तिवर्धिनी तत्र गत्वा किञ्चकारे सञ्चुलाप्राप्तसद्गतिः तत्संवेदविशेषेण तत्पतेश्च मामते सुतवाच सागदाचिन् मां देवीम् उपगम्य प्रणम्य च सुतुष्टावेकरो बद्धा परमानन्दसम्प्रदा चञ्चलो उवाच गिरिजे स्कन्दमातस्त्व सेविता सर्वदा नरे सर्वसौख्यपदेशम्भु प्रियब्रह्मस्वरूपिणी श्रीसु ब्रह्मादिभिस्त्या सगुणा निर्गुणापि चेत् सामाध्या प्रकृति सुचिताय नन्दरूपिणी स्थिति लयक्री त्रिगुण त्रिसुरालय ब्रह्म विष्णु महेशानां सुप्रतिष्ठा करपरा सुवाच इति स्तु महेशीं तां चञ्चला प्राप्तसद्गतिः विररामः तस्कन्धा प्रेमपूर्णा श्रुलोचना ततसा करुणाविष्टा पार्वती शङ्करप्रिया तमुवाच महाप्रीत्या चञ्चुलाम् भक्तवत्सला पार्वती उवाच चञ्चुले सखि सुप्रीतानया स्तुत्या स्मि सुन्दरी किम् याच ते वरम् गृही तवे सूत उवाच इत्युक्ता सा गिरिजया पर्यपृच्छत सुप्रीत्या साञ्जलि नतमस्त चञ्चुरोवाच मम भर्ता अधुना क्वासि नैव जानामि तद्गतिम् तेन युक्ता यथाहम्बै भवाम्बी गिरिजेनघे तथैव कुरु कल्याणि कृपया दीनवत्सले महादेवी महेशानि भर्ताम्बे भृशलीपती मत्तः पूर्वम् मृतप्पापि न जाने कां गतिं गते श्रोतोवाच इत्याकर्ण्य पार्वती प्रत्युवाच सुतम् प्रीत्या गिरिजा नयवत्सला सुते भर्ता बिन्दुगाहो महापापी दुराशये वेषा भोगि महामूढ मुक्त्वारकं गतः भुक्त्वा नरकदुःखानविधान्यमिता स्मा पापशेषेण पापात्मा विन्दे जात पिशाच इदानींत पिशाचोऽस्ति नानाक्लेश समन्वितः तत्रैव वात भुग्दुष्ट सर्वकष्टवाच इति गौर्या वच श्रुत्वा चञ्चुला सा शुभव्रता पति दुःखेन महिता समाधाय ततश्चित्तं सुप्रणम्य महेश्वरी पनप्रपच्छ स नारी हृदये नूयत चञ्चलोवाच महेश्वरी महादेवी कृपां कुरु ममोपरि समुद्धर पतिम् वेद्य दुष्टकर्म करं कलम् केनोपायेन मे भर्ता पापात्मा स कुविद्यमान् सद्गतिम् प्राप्नुया देवी तद्वदा शो नमोस्तु ते श्रोतोवाच सुत इत्याकर्णवच तस्याः पार्वती भक्तवत्फला प्रत्युवाच प्रसन्नात्मा चञ्चुलां सखिञ्चताम् पार्वती उवाच शृणुय यदि ते भर्ता पुण्यांश्चैव गताम्बराम् निश्चर्य दुर्गतिम् सर्वम् तद्गतिम् प्राप्नुयादिति इति गौर्या श्रुत्वा पुनः पुन तत्कथा श्रवणम् भक्तु सर्वोपाशुद्धये तद्गति प्राप्तये चैव प्रार्थया मा सतां तदा सूत उवाच तया मुहुर्मुहुर्नाया प्रार्थिमा न शिवप्रिया कृपाम् वितासी सा महिषी भक्तवत्सला अथ तुम्बुरुमाहूय शिवसत्कीर्ति गायकम् प्रीत्या गन्धर्वराजं हि गिरिकन्य गिरिजा उवाच हे तुम्बुरु शिवप्रीते मम महानस कारके सहमया विन्ध्य भद्रं ते गच्छ सरम् आसे तत्र महाघोरे ोती वयंकर तद्वृत्तं शृणसु प्रीत्या अधीत सर्वं ब्रवीमिते पुरा भुवे पिशाचस्तुका भो भवद्विजय अस्या नार्या पते दुष्टो मत्सख्या वृषलीपति स्नानसन्ध्या क्रियाहीनो अशोच क्रोधमयी विमूढधी दुर्भक्षो सज्जनद्वेषी दुष्परी हिंसक शत्रधारी च सव्यहस्तेन भोजनी दीनानां पीडकीष्म प्रदीपकः चाण्डालाभिर्तो नित्यं वैश्या भोगि मा स्वपत्नी च कृत्वापि दुष्टसङ्गरस्तदा तेन वैश्या कुसङ्गेन सुकृतं नाशितम्भः वित्तलोभेन महिषी निर्भय जागिणीकृता अमृत्यो स दुराचारी काले न निधनम् गत ययोऽयम् पुरम् घोरम् भोगस्थानम् हि पापिनाम् तत्र भूत्वा सदृष्टात्मा नरकानि भवनि च इदानीम् स पिशाचोऽस्ति विन्धि द्रौ पापभुःखल तस्याग्रे परमाम् पुण्याम् सर्वपापविनाशिनीम् दिव्याम् शिव धृतम् शिव पुराणस्य कथाश्च वर्णतपरात् सर्वपाप विशोधात्मा हसति प्रेततां च स मुक्तुम् च दुर्गते तं वै बिन्दुकम् तम् विशाचकम् मदाज्ञया विमलनेन समान्धर्य शिवान्तिकम् गन्धर्वेन्द्र चतुम्बरो मुदेव मनसि भाग्यम् निजमम् निजम् अवर्णयत् आरुह्य सुविमानं सत्या सत्प्रियया सह ययोविन्ध्याचले सोवरम् यत्रा सेनारदप्रिय तत्रापश्य पिशाचन्तं महाकायम् महानम् प्रसन्तम् मृदन्तं च वल्गमन्तं च वल्गम तं विकटाकुटिम् बलाजग्राह सम्पाशे पिशाचं चातिभीकरम् तुम्बुरुश्चिव सत्कीर्ति गायकश्च महावली। अथौ शिवे पुराणस्य वाचनार्थम् स तुम्बुरु निश्चित्य रचनाञ्चक्रे महोत्सेव समन्विताम् पिशाचम् तारयितुम् देव्या शासनार्थम्बुरुगते विध्य शिवपुराणम् च यदृं च श्रावयि इते इति कोलाहलो जातः सर्वलोकेषु वै मान् तत्र तत् श्रवणार्थाय यजुर्देवृतम् समाज तत्र परमोद्भुत चासीत् सुभावः तेषां शिवपराण्यस्य आगतानां श्रोतुमादरात् पियाचम् अत सम्पाशे भद्रात् समुपवेशते तुम्बुरु वल्लकी हस्तो च गो गौरीपते कथाम् आरभ्य सहिताम् आध्याम् स्पष्टम् शिव पुराणम् हि समावदर श्रुत्वा शिव पुराणम् तु सप्तसंहितमादरत् बहु सुकृतार्थास्ते सर्वे श्रोतार एव हि सपिषो महापुण्यम् श्रुत्वा शिव पुराणकम् विधूय कलुशम् सर्वं जहो पैशाचकम् बिव्यरूपो बहुवाशु गौरवर्णक त्रिनेत्र चन्द्रशेखर दिव्यं दिव्यजकान्तय जगोस्वयमपि श्रीमान् चरितं पार्वतीपते तद्वधूमीति संदृष्ट्वा सर्वे देवर्षयश्च बहुर्विस्मिता चित्ते परमानन्दसंयुताय सुकृतार्थ महेशस्य श्रुत्वा चरितमध्वम् संसन्धामयु प्रीत्या शुंसन्त शङ्करम् यशे बिन्दुगे स्वपि दिव्यात्मा सुविमानस्थितसुखी स्वकान्ता श्रीमान् शुशुभेतिव सित अथ गायन् महेशस्य सुगुणान् सुमनोराम् स तुम्बुरु जगामाशु श्रीकान्तशङ्करं पदम् सुसत्कृतो महेशेन पार्वत्या च सबिन्दुः स्वगणश्च कृतप्रीत्या सा पव सखी तस्मिन् लोके परानन्दे घन ज्योतिषिशाश्वती लब्ध्वा निवासमचलम् लभते परमं सुखम् इत्येतत् कथितं पुण्यम् इतिहासम् अघापहम् शिवा शिवे परानन्दम् निर्मलं भक्तिवादनं। य इदम् शृणुयात् भक्त्या कीर्ति द्वासमाहित स भुक्त्वा विपुलान् भोगान् अन्ते मुक्तिम् अवाप्नयत् इति श्रीकान्दे चोपराण महात्मे बिन्दुगसति वर्णनम् नाम पञ्चमोऽध्याय श्रीगौरी शङ्कराभ्याम् अर्पणमस्तु